श्रीमद्भागवत् महापुराणम् माहात्म्यम् तृतीयोऽध्यायः बृहस्पतिरुवाच यदा तु भगवान् तस्मै श्रीभागवतं पुरा उपदेश्याब्रविद्ब्रह्मण् सेवस्वै न स्वसिद्धये ब्रह्मा तु परं प्रीतस्तेन कृष्णाप्तये निशम् सप्तावरणभङ्गाय सप्ताहं समुवर्जयन् श्रीभागवतसप्ताहसेवनाप्तमनोरथः सृष्टिं वितनुते नित्यं स सप्ताह पुनः पुनः विष्णुरप्यर्थं यामा च पुमान् संसारससिद्धये प्रजानां पालने पुंसां जनैनापि कल्पितः विष्णुरुवाच प्रजानां पालनं देव करिष्यामि यथोचितम् प्रवित्याच च नृवृत्त्या च कर्मज्ञानप्रयोजनान् यदा यदैव कालेन धर्मक्लानिर्भविष्यति धर्मं संस्थापयिष्यामि हिवतारै सदा तदा भोगार्थिभ्यस्तु यज्ञादिफलं दास्यामि निश्चितं मोक्षार्थिभ्यो विरक्तेभ्यो मुक्तिं पञ्चविधां तथा येऽपि मोक्षं न वाञ्छन्ति तान् कथं पालयाम्यहम् आत्मानं च चा श्रियं चापि पालयामि कथं वद तस्मा अपि पुमानाद्य श्रीभागवतमादिशन् उवाच च पठस्वैनं तव सर्वार्थसिद्धये ततो विष्णुप्रसन्नात्मा परमार्शकपालने समर्थो भुज्रियामासि मासि भागवतं स्वरन् यदा विष्णुः स्वयं वक्ता लक्ष्मीश्च श्रवणे रता तदा भागवतस्रामो तदा भागवतस्रावो मासेनैव पुनः पुनः यदा लक्ष्मी स्वयं वक्त्रे विष्णुश्च श्रवणे रतः रसास्वाद तदा तीव अधिकारे स्थितो विष्णुल्लक्ष्मी निश्चिन्तमा रसा तेन भागवता स्वाद तस्या भूरि प्रकाशते अथ रुद्रोपितं देवं शृङ्हाराधिकृतपुरां पुमांस प्रार्थयामास स्वसामर्थ्यवृद्धये रुद्रुवाच नित्यै नैमित्तिके चैव शृङ्हारे प्राकृते तथा शक्तयो मं विद्यन्ते देवदेव मम प्रभो आत्यन्तिके च संहारे मम शक्तेन विद्यते महद्दुःखं ममैतत्तु तेन त्वां प्रार्थयाम्यहम् बृहस्पतिर्वाच श्रीमद्भागवतं तस्मा अपि नारायणो ददौ स तु कथाभागवतीतेन जिज्ञे दयेत्वाऽत्यन्तिके तेनाम् आम्वापशक्तिं सदाशिवः उद्धौ उवाच श्रीम् भागवतमाहात्मा इमाख्यायिकाम् गुरोः श्रुत्वा भागवतम् लब्ध्वा प्रणम्यतम् ततस्तु वैष्णवीम् रीतिम् गृहीत्वा श्रीमद्भागवतास्वादो मया सम्यग् निषेवितः तावतैव बभूवाहं कृष्णस्य दयितसखा कृष्णेनाथ नियुक्तोऽहं वजेशप्रेयसी गणे विरहार्तासु गोपीषु स्वयं प्रयोजितः तं यथा मतिलब्ध्वा ता आसन् विरहवर्जिताः नाद्याशिषं रहस्यं तच्चमत्कारस्तु लोकितः सर्वासं प्रार्थन् प्रार्थ्य कृष्णं च ब्रह्माद्येषु गतेषु मे श्रीमद्भागवते कृष्णस्तद्रहस्यं स्वयं ददौ पुरतो स्वस्थमूलस्य चकार मयि तद् तेनात्र व्रजुवल्लीशो वशामि बदरीं गतः तस्मान्नारदकुण्डेऽत्र तिष्ठामि स्वेच्छया सदा कृष्णप्रकाशो भक्तानां श्रीमद्भागवताद् भवेत् तदेषामपि कार्यार्थं श्रीमद्भागवतं त्वहं प्रवक्ष्यामि सहायोऽत्र त्वयैवानुतिष्ठितो भवेत् त्रेवान।